हरि ओम् श्री सीतारामचन्द्राभ्या नमः अत श्रीमद् वाल्मीकि रामायणे अयोध्याखण्डे अष्टाशीति तम सर्गः श्रीरामस्य कुशय्यान् दृष्ट्वा भरतस्य शोक पूर्ण उद्गार तेन स्वयमपि वल्कलजता धारणपूर्वकं वने निवासाय विचारस्य प्रकटनम् तत् निपुणं सर्वं भरते सह इंगुल मूल आगम्य राम शय्याम अभ्रवी जननी सर्व इत महात्म शर्वी चयता भूमौ इदम विमर्जित महाराज कुन महाभागे नीमता दा तो दशरथे नोव्यार् जिनवोत्तर संस्तीर्णे वरास्तरण सञ्चये शयित्वा पुरुष व्याघ्रे कथं चेते महीतले प्रासाद अग्रविमानेषु वल्भीषु च सर्वदा हैमराजदभौमेषु वरातरणशालिषु पुष्प सञ्चय चित्रेषु चन्दन पाण्डुराभ्रप्रकाशेषु शुकसङ्घ ऋतेषु च प्रासादवरवर्येषु शीतवत्सु सुगन्धिषु उषित्वा मेरुकल्पेषु कृतकाञ्चन भित्तिषु गीतवादित्र निर्घोषै वराभरणनिस्वने मृदङ्ग वरशब्दैश्च सततं वन्देभिः वन्दितकाले बहुभिः सूतमागधे गाथाभि अनुरूपाभिः स्तुतिभिः च परन्तपः अश्रद्धेयमिदं लोके न सत्यं प्रतिभातिम मुह्यते खलु मे भवे स्वप्नोयम् इति मे मतिः न नूनं दैवतं किञ्चित् काले न बलवत्तरम् यत्सदा श्री रामो भूमौ एवम् यस्मिन् विदेहराजस्य सुता च प्रियदर्शन दयिता शयिता भूमौ स्नुचा दश रच इयम् शय्यः मम स्थञ्जले कठिने सर्वम् गात्रे विम्रोदितं तृणम् मन्ये शीता स्न शयने तत्र त्रि दृश्य सक्ता कनक बिंदव उत्तरीय सुव्यक्त तथा येते प्रकाशंते सक्ता कौश्यत मे भर्त सुखाशय्या तपस्विनी, सुकुमारी सती दुख न विजानाति मैथिली हा हतोऽस्मि प्रशंसोऽस्मि यत् स भार्य कृते मभ ईदृशीं राघवशय्याम् अधिशेते ह्य नाथवत् सार्वभौमः कुले जातः सर्वलोक सुखव सर्वप्रिय कर त्यक्त्वा राज्यं प्रियम् मनत्तमम् कथम् इन्दी रक्ताक्षय प्रियदर्शनः सुखभागेन दुःखः चैतो भुवि राघवः तन्य खलु महाभागो लक्ष्मण शुभ भ्रातरं विचुमेकाले काले यो अनुवर्तते सिद्धार्थः खलु वैदेही पतिं यानुगता वनं वयं सर्वे हे नासेन महात्मन कर्णधारा पृथिवी शून्ये एव प्रतिभाति मे गते दाशरथे स्वर्गम् रामे चारण्यमाश्रिते न च प्रार्थयते कश्चिन् मनसापि सुन्दरम् वने निवसतस्तस्य बाहुवीर्याभिरक्षिताम् शून्यसुवरणाम् यक्षाम् अयन्त्रीत हयद्विपाम् अनावृत पुरद्वाराम् राजधानीम् रक्षिताम् अप्रविष्टबलाम् शून्याम् विचमस्थामनावृताम् शत्रवो नाभिमन्यन्ते भक्ष्यान्वीषकृतानिवे अद्य प्रभृति भूमौ तु शैष्येऽहम् तृणेषु वा फलमूला शरो नित्यम् कालम् निवस्यामि सुखं मने तत्प्रति श्रुतमार्यस्य नैव मिथ्या भविष्यति वसन्तं भ्रातुरर्थाय चतुर्णो मनो मानुवत्स्यति लक्ष्मणेन स अयोध्याम् आर्यो मे पालयिष्यति अभिषेक् चिकाकुस्थम् अयोध्यायाम् अपि मे देवता कुर्युः इमम् सत्यम् मनोरथम् प्रसाध्यमान शिरसा मया स्वयं बहुप्रकाशं यदि न प्रपत्यते ततो न वचामि चिराय राघवम् वनेचरं नार्हति मामुपेक्षितम् इत्याशी श्रीमद् रामायणे वाल्मीकि अधिकारी